याज्ञिवल्क्य उसस्थसंवादः श्रीगुरुभ्यो नमः हरिः ॐ पूर्णमदपूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ अथ हैनशस्तश्चाक्राजणः पप्रक्ष याज्ञवल्क्येति होवाच यस्ताक्षादपरोक्षात् ब्रह्मय आत्मा सर्वान्तरस्तम्भे चक्षे के सत आत्मा सर्वातर कृतमोयाग्यवल्क सर्वाय प्राणेन प्राणी सत आत्मा सर्वातर पाने व्यादेन सर्वाज सत् आत्मा सर्वान्तरो य उदाडे नो ताडिति सत् आत्मा सर्वान्तर ए सत् आत्मा सर्वान्तरः स वोवाचो शस्तघ्रायणो यथा बिभ्रूजादसौ गौरसाक्ष्व इत्येवमेवैतदव्यपदिष्टं भवति यदेव साक्षाद् अपरोक्षाद्ब्रह्म आत्मा सन् सर्वान्तरस्तम्भे व्याचक्षेत्येषत्मा सर्वान्तरः पद्मो याज्ञवल्क्यसर्वान्तरो न दृष्टेर्द्रष्टारं पश्ये श्रुतेः श्रोतारगं श्रुजा न मतिर्मन्तारम् मन्वीथा न विज्ञाते विज्ञातारं विजानिया एषत् आत्मा सर्वान्तरोतो ततो ज्योषस्तश्चात्रायण उपरराम ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ